नमस्सर्वेभ्यः अस्माकं योगनिष्ठजीवनमिति वर्गे भवतां सर्वेषां स्वागतम् अत्र मोक्षस्य वस्तुतः मार्गत्रयं वर्तते हा वस्तुतः मार्गत्रयं वर्तते ज्ञानमार्गः सर्वमार्गः अनन्तरं भक्तिमार्गः एतेषु मार्गेषु भक्तिमार्गः एव श्रेष्ठः मार्गः शङ्कराचार्येण अपि शङ्कराचार्यः ज्ञानी आसीत् इति वयं जानीमः तेन अपि उक्तं मोक्षसा मोक्षकारणसामग्र्यां भक्तिरेव गरीयसी इति इत्युक्ते अत्र मोक्षस्य यानि साधनानि सन्ति तेषु साधनेषु भक्तिः एव श्रेष्ठा अथवा भक्तिः एव गरीयसी इति तेन उक्तम् तर्हि भक्तिः इति अस्माभिः पूर्वमपि भक्तेः विषये चर्चा कृता तर्हि भक्तिः इति वस्तुतः अत्र भक्तिः नाम का भक्तिः इत्यत्र भज्र धातुः वर्तते भज्रधातुतः तिन् प्रत्ययं योजयामः चेत् तत्र भक्तिः इति शब्दः निष्पद्यते तर्हि भज्र धातोः अर्थः कः इति चेत् भज्रधातोः अर्थः परमपुरुषं प्रति गमनं एव बज् धातुः अर्थः परमपुरुषं प्रति या गतिः वर्तते सा गतिः एव भक्तिः इत्यर्थः परमः पुरुषः तु एकः अस्ति सः नित्यः शुद्धः एकः एकः एव तादृशः अन्यः नास्ति अनन्यभाक् अस्ति अनन्यभाक् इत्युक्ते सा एकाकी एव वर्तते तस्य कापि नास्ति तर्हि भक्तिः इति कदा वदामः इत्युक्ते भक्तिः भक्तिः इति वयं वदामः तर्हि इत्युक्ते वयं सर्वे चिन्तयामः ओ मम मनसि तत्र काचित् भक्तिः वर्तते एव इति परन्तु वस्तुतः अस्माकं मनसि भक्तिः वर्तते वा न वा इति कथं ज्ञातुं शक्नुमः इति चेत् यदा अस्माकं सर्वाः वृत्तयः केन्द्रीकृत्य परमं परमपुरुषं प्रति गच्छति इत्युक्ते यत्किमपि वयं कुर्मः प्रातःकालात् आरभ्य रात्रिपर्यन्तं तत्र यत्र एकः एव विषयः प्रधानः यत्र भवति सः विषयः अस्ति परमपुरुषः यथा तथा भवति इत्युक्ते यत्किमपि वयं कुर्मः किमपि कार्यं कुर्मः चेत् तत्तु परमपुरुषस्य कृते कुर्मः यत्किमपि वदामः चेत् तत् परमपुरुषस्य कृते वदामः यत्किमपि खादामः तत् परमपुरुषस्य कृते खादामः यत्किमपि वयं कुर्मः प्रातःकालात् आरभ्य रात्रिपर्यन्तं यः ब्रह्मचर्यभावे ब्रह्मभावे वर्तते यः ब्रह्मचर्यस्य पालनं करोति इत्युक्ते तस्य अर्थः कः इति चेत् यः तस्य तस्य स्वतन्त्रतया आकाङ्क्षा नास्ति इच्छा नास्ति अन्य अन्य अन्यचिन्तनं किमपि नास्ति तस्य तस्य तस्य पुरुषस्य तस्य मनुष्यस्य याः वृत्तयः सन्ति ताः सर्वाः अपि केन्द्रीकृत्य परमपुरुषं प्रति गच्छति तादृशगमनमेव भक्तिः तादृशगमनं कदा शक्यते यदा अस्माकं स्वतन्त्रतया इच्छा इच्छाः न भवन्ति तदा एव शक्यते इत्युक्ते अस्माकं अहङ्कारः यदा न भवति यदा अस्माकम् अहं तत्त्वं प्रधानरूपेण न भवति तदानीमेव भक्ति भक्तेः वर्धनं भवितुमर्हति यदा कस्यचित् पुरुषस्य अहङ्कारः वर्तते अहमेव सर्वम् अहमेव करोमि मां त्यक्त्वा अन्यत् किमपि नास्ति जगति इति यः चिन्तयति तादृशस्य पुरुषस्य मनसि भक्तिः न भवति एव भक्तिः प्रेमरूपा तर्हि भक्तिः प्रेमरूपा अनन्यमता विष्णोर्ममता प्रेमसङ्गता तर्हि यदा य या आकर्षणं यद् आकर्षणम् अस्ति अस्माकं मनसि तद् केवलं परमपुरुषस्य कृते अस्ति परमपुरुषः यः विष्णुः अस्ति यः सर्वव्यापी अस्ति तादृशसत्तां प्रति यदा अस्माकं प्रेमभावः भवति तदानीं भक्तिः इति वयं वक्तुं शक्नुमः तर्हि भक्तिः कदा भवितुमर्हति इत्युक्ते अस्माकं मनस् मनः यदा वर्धते मनसः वर्धनम् अपेक्षितं भक्तेः भक्तेः वर्धनार्थं मनसः वर्धनम् अपेक्षितम् यदा अस्माकं मनः कुञ्चितं वर्तते सङ्कोचितं वर्तते इत्युक्ते तत्र भेदभावः भवति ओ अयं मनुष्यः भिन्नः अयं भिन्नः अयं भिन्नः इति तादृशभेदभावः अस्ति जातिरूपेण भेदभावः अस्ति अथवा अत्र रिलिजिन् रूपेण भेदभावः अस्ति अथवा देशरूपेण भेदभावः अस्ति कालरूपेण भेदभावः अस्ति एतादृशभेदभावः मनसि भवति चेत् तदानीं भक्तिः न भवितुम् अर्हति यदा मनः वर्धते इत्युक्ते वर्धनम् इत्युक्ते किं तत्र समत्वभावः यदा मनसि भवति अत्र य यत्किमपि अस्मिन् जगति अस्ति सर्वं परमपुरुषस्य स्वरूपं वर्तते परमपुरुषस्य आकारः वर्तते परमपुरुषः एव परमपुरुषात् एव सर्वम् आगतं सर्वम् अपि ये ये ये जीवाः सन्ति ते सर्वे अपि परमपुरुषस्य एव सन्तानः इति यदा मनसि भावः भवति तदानीं मनः वर्धते मनसः विस्तारः भवति यदा मनसः विस्तारः भवति तदानीं सः अवगच्छति इदं जगत् सर्वं विष्णोः एव अस्ति इदं जगत् सर्वं, सर्वं विष्णोः अस्ति अतः मम प्रेमभावः सर्वं प्रति अस्ति यदा मम प्रे प्रेमभावः सर्वं प्रति अस्ति इत्युक्ते मम प्रेमभावः विष्णोः प्रति अस्ति परमपुरुषं प्रति अस्ति मम प्रेमभावः तदानीं तस्मिन् गतिप्रवाहे यः पुरुषः अस्ति यस्य ममता केवलं विष्णोः कृते अस्ति यस्य प्रेमभावः केवलं यः परिव्याप्तः अस्ति विष्णुः तं प्रति अस्ति या सत्ता अस्मिन् विश्वब्रह्माण्डे सर्वत्र परिव्याप्तः अस्ति तादृशसत्तां प्रति अस्माकं प्रेमभावः भवति चेत् तदानीं भक्तिः इति वयं वक्तुं शक्नुमः तर्हि अत्र भक्तेः बहवः स्तराः सन्ति भक्तेः बहवः स्तराः सन्ति कदा भक्तिः अस्ति इति वक्तुं शक्नुमः इत्युक्ते अस्माकं मनसि अन्य अन्या इच्छा गूढरूपेण अन्या इच्छा न नास्ति चेत् तदानीं भक्तिः इति वक्तुं शक्नुमः इत्युक्ते यदा गूढरूपेण अन्याः इच्छाः सन्ति इत्युक्ते किमपि ओ धनं प्राप्तव्यं प्राप्तव्यम् अथवा मम पुत्रस्य विवाहः भवतु मम पुत्र्याः विवाहः भवतु तस्याः किमपि कार्यं भवतु इति एवं रीत्या मम कृते तु परमपुरुषं प्रति प्रेम प्रेमभावः अपि अस्ति अपि च मम कृते एतदपि भवतु धनं भवतु अथवा पुत्रलाभः भवतु अथवा यत्किमपि भवतु इति तादृशी इच्छा अस्ति चेत् तदानीं तादृशी भक्तिः शुद्धा भक्तिः नास्ति शुद्धा भक्तिः नास्ति यदा अस्माकं मनसि कापि इच्छा नास्ति कापि इच्छा नास्ति एका एव इच्छा का इच्छा इति चेत् अत्र परमपुरुषः एव अस्माकम् इच्छायाः विषयः तदानीं तत्र शुद्धा भक्तिः शुद्धाभक्तिः इति वक्तुं शक्नुमः तत्र केवलं बाह्यरूपेण भक्तिः ही इति वयं वदामः परन्तु आन्तरिकरीत्या वयं पश्यामः चेत् भक्तिः इति किमपि नास्ति इत्युक्ते स्वजीवने व्यवहारे भक्तेः यानि लक्षणानि सन्ति तेषां तत्र प्रकाशनं नास्ति जीवे अस्माकं व्यवहारे तदानीं भक्तिः भक्तिः इति वदनस्य न कोऽपि लाभः तर्हि एतादृश तत्र गूढरूपेण अन्याः इच्छाः भवन्ति चेत् तु मुक्तिमोक्षः तु न लभ्यते परमपुरुषः तु न लभ्यते यतोहि परमपुरुषः एव लक्ष्यं नास्ति भवतः भवतः इच्छायाः लक्ष्यं परमपुरुषः नास्ति तर्हि तत्र गूढरूपेण अन्याः इच्छाः सन्ति चेत् तदानीं तत्र भिन्नभिन्न लक्ष्यानि भवन्ति जीवे तदानीं तादृशभक्तिः शुद्धाभक्तिः नास्ति शुद्धा तर्हि अत्र तर, भक्तेः मया पूर्वमपि एकवारं चर्चितमासीत् तत्र भक्तेः पञ्चस्तराः सन्ति अस्ति सामसिकीभक्तिः राजसिकीभक्तिः सात्विकीभक्तिः इति त्रयः अनन्तरम् इतोपि अधिकस्तरे रागानुकाभक्तिः रागात्मिका भक्तिः इति सामसिकीभक्तिः इत्युक्ते किम् इति चेत् यः परमपुरुषः अस्ति इति अङ्गीकरोति परन्तु परमपुरुषं परमपुरुषं प्रति किं प्रार्थयति इति चेत् ओ मम यः शत्रुः अस्ति तस्य मरणं भवतु इति यः प्रार्थयति यस्य भक्तिः तादृशी अस्ति तदानीं वयं वदामः तामसिकी भक्तिः इति यतोहि तत्र केवलं शत्रोः मरणमेव भक्तेः विषयः अस्ति यतो एतादृशभक्तिः अदमाभक्तिः अदमाभक्तिः अनन्तरम् अग्रिमभक्तिः अस्ति रागात्मिका भक्तिः रागात्मिका भक्तिः इत्युक्ते परमपुरुषः अस्ति इति अङ्गीकरोति परमपुरुषं प्रति तस्य प्रार्थना कथं भवति इति चेत् ओ मम पुत्रलाभः भवतु मम धनलाभः भवतु मम गृहलाभः भवतु मम यत्किमपि भवतु पशुलाभः भवतु अथवा यत्किमपि भवतु तादृश वस्तुनः प्रार्थना भवति तदेव तत्र राजसिकीभक्तिः सात्विकीभक्तिः इत्युक्ते किम् इति चेत् सः तु किमपि न प्रार्थयति इत्युक्ते एतद् भवतु तद् भवतु इति न प्रार्थयति परन्तु तस्य शरीरे स्वास्थ्यं नास्ति स्वास्थ्यं नास्ति तस्य जगतः जगति यानि वस्तूनि सन्ति तेषाम् अनुभवार्थं तत्र शरीरे शक्तिः नास्ति तदानीं सः किं करोति इति चेत् सः परमपुरुषः अस्ति इति अङ्गीकरोति परमपुरुषम् अङ्गीकरोति परन्तु सः किं पृच्छति सः किं प्रार्थयति इति चेत् ओ हे परमपुरुषः मम हे परमपुरुषः मम कृते मुक्तिमोक्ष मुक्तिं ददातु मुक्तिं ददातु इति सः प्रार्थयति किमर्थम् एवं प्रार्थयति वास्तविकतया तत्र सः मुक्तिम् इच्छति वा न वास्तविकतया सः मुक्तिं न इच्छति किमर्थं प्रार्थयति इति चेत् तत्र लौकिकजीवने यानि वस्तूनि सन्ति तेषाम् अनुभवार्थं तस्य शरीरे शक्तिः नास्ति इति कृत्वा तादृशप्रार्थनां करोति ओ मुक्तिं ददातु यतो हि अत्र अत्र लोके स्थित्वा अहं किं वा करोमि मम शरीरे स शक, शक्तिः नास्ति अतः मुक्तिं ददातु इति सः प्रार्थना प्रार्थयति प्रार्थ तर्हि तामसिकीभक्ति भक्तिः राजसिकीभक्तिः सात्विकीभक्तिः एताः पित्रः भक् पित्रः भक्तयः लौकिकभक्तयः इत्युक्ते तत्र लौकिकविषयः लौकिकवस्तु एव भक्तेः विषयः अतः एताः भक्तयः वास्तविकभक्तयः न सन्ति इदानीं तत्र इतोपि उच्चतरः उच्चतराभक्तिः का इति चेत् रागानुगभक्तिः रागानुगभक्तिः इत्युक्ते सः पुरुषः परमपुरुषः अस्ति इति अङ्गीकरोति सः परमपुरुषात् किमपि न प्रार्थयति ओ एतद् ददातु तद्ददातु लौकिकवस् वस्तु न प्रार्थयति सः परमपुरु तस्य परमपुरुषं प्रति प्रेमभावः अस्ति सः वदति अहं किमपि न प्रार्थयामि मम कृते किमपि न आवश्यकं परन्तु सः किमर्थं भक्तिभावं करोति इति चेत् तादृशभक्तिभावेन तस्य कृते आनन्दः लभ्यते इति कृत्वा सः भक्तिभावं करोति इत्युक्ते सः किमपि न इच्छति परन्तु किमर्थं भक्तिभावं करोति इति चेत् तादृशभक्तिभावेन तस्य कृते आनन्दः लभ्यते इति कृत्वा सः भक्तिं करोति इयं भक्तिः उच्चतरभक्तिः एव यतो हि सः लौकिकवस्तु वस्तु, वस्तु किमपि न प्रार्थयति परन्तु अहं मम प्रीतिभावः परमपुरुषं प्रति अस्ति परमपुरुषाय मम प्रीतिभावः अस्ति यतो हि मम कृते आनन्दः लभ्यते मम कृते अन्यत् किमपि न परन्तु आनन्द आनन्दः लभ्यते इति इयमेव रागानुगाभक्तिः रागानुगाभक्तिः अपि शुद्धभक्तिः यतो हि लौकिकवस्तु वस्तुनः प्रार्थना नास्ति इति कृत्वा शुद्धभक्तिः एव परन्तु तस्यापि अपेक्षया उच्चतमा भक्तिः का इति चेत् रागात्मिका भक्तिः रागात्मिका भक्तिः इत्युक्ते इति चेत् सः परमपुरुषः अस्ति इति अङ्गीकरोति सः परमपुरुषात् किमपि न प्रार्थयति सः परमपुरुषं परमपुरुषं प्रति तस्य प्रेमभावः प्रीतिभावः अस्ति सः आनन्दः यः परमपुरुषस्य भक्तिद्वारा यः या यः आनन्द आनन्दभावः लभ्यते तादृशभावमपि सः न इच्छति सः भक्तिं करोति इति चेत् केवलं परमपुरुषस्य प्रीत्यर्थं परमपुरुषस्य परमपुरुषः परमपुरुषाय आनन्दः भवतु इति मत्वा सः भक्तिं करोति सः किमपि न इच्छति सः न इच्छति तत्र तस्य मनसि गूढ गूढरूपेण इच्छा नास्ति ना, ना कापि इच्छा तस्य मनसि केवलं सः किं वदति इति चेत् हे परमपुरुष मम प्रीतिभावः तुभ्यं वर्तते किमर्थं वर्तते इति चेत् तेन भवतः कृते आनन्दः भवतु इति कृत्वा तस्य तादृशभक्तिः उच्च उच्यतमा भक्तिः रागात्मिका भक्तिः सर्वोत्तमा भक्तिः का इति चेत् रागात्मिका भक्तिः एव सर्वोत्तमा भक्तिः अस्ति सर्वोत्तमा भक्तिः रागात्मिका भक्तिः अतः अस्माभिः अत्र योगनिष्ठजीवने यदा वयं अत्र वयम् आगताः तर्हि एतावता अस्माभिः किम् अधीतमिति चेत् आहारस्य विषये व्यवहारस्य विषये अस्माकं नियमपालनं कथं भवेत् आसनानि कथम् आसनानि प्रतिदिनम् अस्माभिः करणीयानि अनन्तरं साधना करणीया एतत् सर्वम् अधीतं तर्हि इदानीं कोऽपि साधनां करोति परन्तु तस्य मनसि प्रीतिभावः नास्ति परमपुरुषं प्रति प्रीतिभावः नास्ति तस्य मनसि मरुभूमिः इव किमपि नास्ति तत्र केवलं यन्त्ररूपेण मन्त्र उच्चारणं करोति साधनायां तदानीं किमपि लभ्यते वा तत्र अग्रगतिः भवति वा आध्यात्मिकजीवने अग्रगतिः भवति वा कदापि न भवति यतोहि तत्र प्रेमभावः भवेत् प्रेमभावः केवलं परमपुरुषं प्रति भवेत् तादृशभावः नास्ति चेत् तदानीं भक्ति भक् भक्तेः अभावे अग्रगतिः न भवति तत्र समयस्य व्ययः एव भवति यदि साधनायाम् उपविष्टः कश्चन एकघण्टापर्यन्तं साधनां करोति परन्तु अग्रगतिः न भवति कदापि इत्युक्ते आजीवने करोति चेदपि अग्रगतिः न भवति यतोहि तस्य मनसि तत्र भक्तिः नास्ति भक्तिः नास्ति इत्युक्ते परमपुरुषाय प्रीतिः नास्ति प्रेमभावः नास्ति ममता नास्ति अत्र किमुक्तमस्ति अनन्यममता अनन्यमता न अन्यममता अनन्यमता इत्युक्ते अन्यं प्रति ममता न भवेत् अन्यं प्रति ममता न भवेत् ममता तु केवलं विष्णु विष्णुं प्रति एव ममता भवेत् प्रेमसङ्गता प्रेम अपि भवेत् प्रेमभावः भवेत् ममकारः ममकारः इत्युक्ते किं मम केवलं मम केवलं मम एव अस्ति अन्यस्य नास्ति यदा पुत्रः वदति मम माता यदा पृच्छति चेत् यद्यपि तस्य भ्राता अस्ति भगिनी अस्ति अन्ये जनाः अपि सन्ति तदापि कोऽपि पृच्छति चेत् माता कुत्र अस्ति इति पृच्छति चेत् मम माता गृहे नास्ति इति वदति मम माता किमर्थम् अस्माकं माता इति न वदति मम माता इति किमर्थं वदति यतोहि ममता अस्ति खलु मातरं प्रति ममता अस्ति एवं यदा अस्माकं मनसि ममता भवेत् परमपुरुषं प्रति मम ममता तादृशममता यद् अन्यम् अन्यं प्रति न भवेत् अनन्य ममता इत्युक्ते सः परमपुरुषः केवलं मम अस्ति अन्यस्य नास्ति इति मम भवेत् अनन्तरं प्रेम अपि भवेत् मम केवलं मम अस्ति चेत् पर्याप्तं नास्ति मम मम इति अस्ति चेत् पर्याप्तं नास्ति अपि च तत्र प्रीतिभावः प्रेमभावः अपि भवेत् मम यदा भवति तदानीं प्रेमभावः अपि भवेत् द्वयं मिलित्वा मम अपि च प्रेमभावः परमपुरुषं प्रति यदा भवति अन्यं प्रति न भवति तदानीं भक्तिः इति वयं वदामः तत् तर्हि तर ये भक्ताः वास्तविकभक्ताः सन्ति ते गोपाः सन्ति गोपाः गोपः नाम नाम कः इति चेत् लौकिकभाषायां गोपः नाम यः गोः गो करोति धेनोः पालनं करोति सः गोपः इति वयं सामान्यतया वयं वदामः लौकिकभाषायां परन्तु आध्यात्मिक आध्यात्मिक अर्थः आध्यात्मिकार्थः कः गोपः नाम इति चेत् यः यः अन्यं प्रति आनन्दं ददाति आनन्दं ददाति यः सः गोपः तर्हि कं प्रति आनन्दं ददाति इति चेत् परमपुरुषं प्रति आनन्दं ददाति गोपायते यः सः गोपः यः भक्तः यस्य अभिप्रायः कः इति चेत् केवलं परमपुरुषं प्रति अहम् आनन्दं ददामि इति यस्य अभिप्रायः अस्ति सः एव गोपः गोपः इत्युक्ते य यः गां पालयति सः गोपः इति न गोपः इत्युक्ते भक्तः इत्यर्थः तत्र परमपुरुषः कः वा किं वदति इति चेत् अहम् अहं मम मम ये गोपाः सन्ति तेषाम् अहम् अधीनः तेषाम् अहम् अधीनः अस्मि इति सः वदति परमपुरुषः गोपानाम् अधीनः अस्ति इति तत्र सः एव गोपः सः एव गोपः तर्हि गोपः इत्युक्ते यः यः यस्मिन् रागात्मिका भक्तिः वर्तते यस्मिन् मनुष्ये रागात्मिका भक्तिः वर्तते सः एव गोपः भवितुम् अर्हति तादृशपुरुषं प्रति तादृशं पुरुषं प्रति परमपुरुषः आकृष्टः भवति सः झटिति आयाति झटिति आयाति यस्य पुरुषस्य रागात्मिका भक्तिः अस्ति तं प्रति परमपुरुषः झटिति आगच्छति तर्हि रागात्मिकभक्तिः एव अत्र मोक्षप्राप्त्यर्थम् आनन्दमयः उपायः अस्ति अन्य अन्यमार्गः नास्ति अन्यमार्गः नास्ति यदा यदा वयं भक्तिं कुर्मः वयं स्वयम् अनुभोक्तुं शक्नुमः भक्तिः यदा वर्धते तदानीम् अस्माकं मनसि आनन्दः अपि वर्धते आटोमेटिक् स्वतः स्वतः भक्तिः यदा वर्तते तदानीम् आनन्दः अपि वर्धते यत्र भक्तेः वर्धनं भवति तत्र आनन्दः अपि वर्धते इत्युक्ते तत्र तादृशस्थले दुःखं न भवितुम् अर्हति यतोहि भक्तिः अधिका भवति चेत् तदानीं परमपुरुषः तत्र एव भवति परमपुरुषः तत्र एव भवति चेत् आनन्दः परमपुरुषः तु आनन्दस्वरूपः अस्ति अतः आनन्दः अपि तत्रैव भवति अतः मह्यम् आनन्दं ददातु इति प्रार्थनायाः आवश्यकता एव नास्ति यतोहि रागात्मिका भक्तिः यस्य वर्तते तत्र तु आनन्दः अवश्यं भवति यतोहि भक्तेः रूपः एव परमपुरुषः भक्तिस्वरूपः परमपुरुषः भक्तिः यत्र अस्ति तत्र परमपुरुषः झटिति आयाति परमपुरुषः झटिति आयाति चेत् तत्र आनन्दः तु अवश्यं भवति एव अतः अत्र भक्तिः अत्र मोक्षकारणसामग्र्यां भक्तिः गरी अस्ति अतः अस्माभिः सर्व सर्वे सर्वैः भक्तिः वर्धनीया भक्तिः वर्धनीया तर्हि अस्माकं मनसि भक्तिः कियती भक्तिः वर्तते इति वयं स्वयं परिशीलयितुं शक्नुमः अपि च अत्र अन्य अन्यविषयः वयं सर्वे परमपुरुषेण सह वयम् अस्माकं सर्वेषां सम्बन्धः वर्तते वयं सर्वे परमपुरुषात् आगताः अस्माकं साक्षात् सम्बन्धः वर्तते परमपुरुषेण अपि च सामूहिकरूपेण अपि अस्माकं सम्बन्धः वर्तते वयं परमपुरुषः सर्वव्यापि सर्वत्र वर्तते तस्य सर्वासु दिक्षु सर्वासु दिक्षु सः वर्तते अतः कुत्रापि जगति कुत्रापि तादृशस्थलं नास्ति यत्र सः न वर्तते तर्हि अस्माकं पार्श्वे तु सर्वदा सः अस्ति यत् यत्किमपि वयं तत्र तु अस्ति एव सः अतः कदापि वयम् असहाय असहायः अस्मि अहं इति कदापि न चिन्तनीयं कदापि न चिन्तनीयं तत् एकाकी अस्मि अहम् अन्य मम सहायार्थम् अन्य कोऽपि नास्ति इति कदापि न चिन्तनीयं कदाचित् किं भवति इति चेत् किमपि गृहे जातम् अथवा बहिः बहिः किमपि जातं येन मनसि तत्र शान्तिः नास्ति तदानीं वयं कदाचित् चिन्तयामः ओ अहं तु लोके एकाकी अस्मि मम सहायार्थं कोऽपि नास्ति इति केनापि न चिन्तनीयं यतोहि सः सर्वदा अस्ति सर्वदा अस्ति यदा तस्मिन् अस्माकं भक्तिभावः वर्धते तदानीं वयम् अनुभक्तुं शक्नुमः सः प्रत्येक् प्रत्येकस्मिन् क्षणे पार्श्वे एव अस्ति इति वयम् अनुभक्तुं शक्नुमः अतः अस्माकं स्त्रिदि कदापि हीनमान्यता न भवेत् न वा महामान्यता सुपीरियोरिटि काम्प्लेक्स् इन्टिरियोरिटि काम्प्लेक्स् कदापि न भवेत् इत्युक्ते अन्यस्य अपेक्षया अहमेव महान् अस्मि अथवा अन्यस्य अपेक्षया मम अधिकम अधिकमस्ति मम धनमधिकमस्ति मम ज्ञानमधिकमस्ति इति तादृशभावना कदापि न भवेत् अपि च चा, केषाञ्चन जनानाम् एतादृशभावः अपि भवति अहम् अन्यस्य अपेक्षया अपेक्षया न्यूना अस्मि मम किमपि किमपि नास्ति इति तत्र इन्फिरियोरिटि काम्प्लेक्स् हीनमान्यता अपि न महामान्यता अपि न यदा मनसि भक्तिः अस्ति तदानीम् एतादृशभावना कदापि न भवति हीनमान्यता न भवति महामान्यता न भवति हीनमान्यता इत्युक्ते ओ तस्य पार्श्वे एवम् अस्ति मम नास्ति इति कृत्वा हीनमान्यता ओ तस्य पुत्राः सन्ति तस्य धनं सन् धनमस्ति तस्य गृहमस्ति मम पार्श्वे नास्ति इति कृत्वा हीनमान्यता इति हीनमान्यता न भवेत् महामान्यता न भवेत् सर्वदा परमपुरुषः अस्माकं अस्माकं समीपे वर्तते सः साक्षीसत्ता वर्तते सः पश्यति एतद् एतद् मनसि धृत्वा अस्माभिः अग्रे गन्तव्यम् अग्रे गन्तव्यम् अग्रगतिः प्रतिदिनम् अस्माकम् अग्रगतिः भवेत् अस्माकम् अग्रगतिः अस्ति इति वयं स्वयं परिशीलितुं शक्नुमः अस्माकं भक्तिः व वर्धिता वा न वा इति वयं स्वयं परिशीलयितुं शक्नुमः इति भक्तेः विषये इदानीम् उक्त्वा अत्र अस्माकं करपत्रं करपत्रं प्रति अहं गन्तुम् इच्छामि of these मम स्क्रीन् दृश्यते वा न भगिनि नमस्कारः नमस्कारः भगिनि ओके ओके इदानीम् इदानीं दृश्यते वा इदानीं दृश्यते महोदय समीचीनं तर्हि अत्र अयं संसारः कः इति अस्माकं करपत्रस्य विषयः अस्ति तत्र अस्माभिः दृष्टं यत् अत्र परिदृश्यमानं जगत् यद्वर्तते तद् जगत्तु वासवि वस्तुतया परमपुरुषस्य मनसि कल्पना वर्तते इति अस्माभिः दृष्टं तर्हि अस्माकम् अस्माकमपि कल्पना भवति अस्माकमपि स्वप्नः भवति कल्पना भवति यदा कल्पना कल्पना भवति तदानीं तत्र यदा अस्माभिः दृष्टं यत् यः पुरुषः चान्दनी यः पुरुषः प्रयाग्नगरे वसति तस्य कल्पना चान्दनीचौक् चान्दनीचौक् नगरस्य कल्पना यदा भवति तदानीं तस्य चित्तस्य इन्द्रेण सह सम्पर्कः न भवति चित्तं तु चान्दनीचौक् नगरस्य आकारं धरति अहं तत्त्वं तु चान्दनीचौक् नगरं पश्यति तस्य कल्पना प्रवर्तते यदा तस्य कल्पनायाः भग्नः भग्ना भवति तदानीं सः अवगच्छति यत् ओ वसुतः तु चान्दनीचौक् नगरे सः नास्ति वसुतः तु प्रयाग्नगरे अस्ति इति सः अवगच्छति यथा तत्र कल्पना अस्ति इति कल्पनायाः विषये अस्माभिः दृष्टं यदा कल्पना भवति तत्र तदानीं चित्तस्य इन्द्रियण सह सम्पर्कः न भवति वास्तविकतया यदा विषयग्रहणं भवति बाह्यवस्तुतः बाह्यजगतः विषयग्रहणं भवति तदानीं तत्र इन्द्रियस्य चित्तेन सह सम्पर्कः भवति इन्द्रियस्य बाह्यजगति यद्वस्तु अस्ति तेन सह सम्पर्कः अस्ति तदानीं चित्तं बाह्यवस्तुनः आकारं धरति आं तत्त्वं तद्वस्तु पश्यति इति अस्माभिः दृष्टम् इदानीं तत्र इय इदं जगत् यद्वर्तते तत्तु परमपुरुषस्य मनसि कल्पना वर्तते इति उक्तं तर्हि कथं कल्पना इति तुलनां कर्तुम् इति अस्माकम् एक एक, एक एकम् उदाहरणम् आसीत् ऐन्द्रजालकस्य उदाहरणम् आसीत् यः ऐन्द्रजालिकः अस्ति तस्य वशे ये जनाः भवन्ति तदानीं ते जनाः ऐन्द्रजालिकेन किं प्रदर्शितं तदेव ते पश्यन्ति यतोहि तेषां मनः ऐन्द्रजालिकेन नियन्त्रितं वर्तते इति कृत्वा तेन यद्यद् प्रदर्श्यते तस्य चित्ते सः यत्किमपि कल्पना कर यत्किमपि कल्पनां करोति चित्ते यस्य कस्यापि कल्पनां करोति चित्ते तदेव तत्र चित्ते तच्चित्तं तद्रूपं धरति ये जनाः येषां मनः ऐन्द्रजालिकस्य वशे अस्ति तदानीं ते जनाः ऐन्द्रजालिकस्य चित्ते यद् यद् यः आकारः अस्ति तम् आकारमेव ते जनाः अपि पश्यन्ति परन्तु ये जनाः तस्य वशेन सन्ति ते दूरे दूरे ते जनाः दूरे सन्ति ते किं पश्यन्ति इति चेत् ऐन्द्रजालिकः अस्ति तत्र नेत्रं निमील्य ते किमपि करोति इति तदेव ते पश्यन्ति अन्यत् किमपि न पश्यन्ति इत्युक्ते ते, ते न पश्यन्ति इन्द्रजालिकस्य चित् चित्रे चित्ते या कल्पना अस्ति तां कल्पनां तु अन्ये जनाः न पश्यन्ति इति अस्माभिः दृष्टम् एवम् अत्र सगुणब्रह्मणि सगुणब्रह्मणि कल्पना जायमाना अस्ति कल्पना जायमाना अस्ति सगुणब्रह्मणि एकः वृक्षः अस्ति तत्र सगुणब्रह्मणि अहमस्मि भवती अस्ति सर्वे वयं सर्वे स्मः तर्हि वयं सर्वे अपि तं वृक्षं पश्यामः तं वृक्षं दृष्ट्वा वयं सर्वे अपि ओ वास्तविकरूपेण अस्ति इति वयम् अवगच्छामः वयमवगच्छामः परन्तु परन्तु तत्तु तत्तु वस्तुतः कल्पना एव अस्ति परमपुरुषस्य मनसि तत्तु कल्पना एव अस्ति परन्तु कल्पना जायमाना अस्ति कल्पनायां ये विषयाः सन्ति ते विषयाः वास्तविकाः सन्ति इत्युक्ते कल्पनायां यत्किमपि भवतु परिदृश्यमानजगति ये विषयाः सन्ति ते सर्वे विषयाः वस्तुतः वस्तुतः कल्पनायाः विषयाः एव परन्तु कल्पना तु जायमाना अस्ति कल्पना जायमाना अस्ति इति कृत्वा तत्र इदं जगत् सत्यं नास्ति इति वक्तुं न शक्नुमः सत्यं नास्ति इति वक्तुं न शक्नुमः यतोहि वयं यदा वयं पश्यामः अस्माकं कृते तु सत्यं भाति वृक्षः अस्ति गृहमस्ति जनाः सन्ति एतत् सर्वं सत्यं भाति अतः अत्र ये जनाः लौकिके जीवने वसन्ति तेषां कृते तु इदं जगत् अस्ति इदं जगत् अस्ति इदं जगत् नित्या इति वक्तुं न शक्यते यदा अस्माकं मनः यस्मा अस्माकं मनः वर्धते वयं वास्तविकसत्यं किम् इति अवगन्तुं शक्नुमः यथा अस्माभिः तत्र ऐन्द्रजालिकस्य यः दर्शनमस्ति तत्तु वास्तविकं नास्ति परन्तु यावत्पर्यन्तम् ऐन्द्रजालिकस्य वशे वयं स्मः तदानीं सर्वं सत्यं भाति एवं वयं सर्वे अपि परमपुरुषस्य वशे स्मः त तावत्पर्यन्तम् एतत् सर्वं सत्यं भाति इत्युक्ते प्रकृते प्रकृतेः वशे स्मः यावत्पर्यन्तं प्रकृतेः वशे स्मः एतत् सर्वं सत्यं भाति यदा प्रकृतेः वशः अपगच्छति तदानीं वयम् अवगन्तुं शक्नुमः अत्र केवलं भ्रम एव वर्तते अन्यत् किमपि नास्ति इति वयम् अवगन्तुं शक्नुमः तावत्पर्यन्तम् अत्र लोकः नास्ति इति वक्तुं न शक्नुमः लोके वसामः तदानीं लोकः तु अस्ति अहं तु पश्यामि लोकं पश्यामि लोके यद्यदस्ति सर्वं पश्यामि अतः अत्र जगन्मिथ्या भ्रमसत्यं जगन्मिथ्या इति तादृश अङ्गीकारः नास्ति योगे वयं किं वदामः इति चेत् भ्रम अस्ति जगत् जगतः सापेक्षिकसत्यत्वं वर्तते मिथ्या नास्ति सापेक्षिकसत्यत्वं वर्तते यावत्पर्यन्तं लोके वसामः वयं लोके ब्रह्मभावं स्वीकृत्य वयं वसामः अन्यमनुष्याणां साहाय्यं कुर्मः यदा जगन् मिथ्या इति वयं वदामः तदानीम् अन्यस्य सहायस्य आवश्यकता न भवति यतोहि सर्वं मिथ्या अस्ति किमर्थम् अन्यस्य सहायम् अस्माभिः सहायस्य आवश्यकता नास्ति तर्हि एतादृश भावः यदा भवति तदानीं किं भवति इति चेत् तदा वयं सेवां कुर्मः जगत् वर्तते तस्य सापेक्षिकसत्यत्वं वर्तते अन्यस्य सेवां कुर्मः यदा सेवां कुर्मः अस्माकं मनः वर्धते अस्माकम् अग्रगतिः भवति अग्रगतिः यदा भवति तदानीं तत्र मुक्तिमोक्षः अपि सुलभतया लभ्यते इति तावत्पर्यन्तम् अस्माभिः गतवर्गे दृष्टमासीत् इदानीं किञ्चित् अग्रे गच्छामः ओके किं विजयाभगिनी पठति वा आं महोदय ऐन्द्रजालिकस्य दृश्यं अस्माकं कृते एकं सत्यं ज्ञापयितुम् एकं स्पष्टम् उदाहरणम् अस्ति महोदय एकः प्रश्नः इदानीं भक्तिविषये उक्तवती खलु अत्र एतत् पृथक्तया करपत्रमस्ति कर वा अस्ति चेत् कृपया ग्रूप् मध्ये प्रेषयतु महोदय बहु समीचीनम् आसीत् एव करपत्रमे करपत्रमिति नास्ति परन्तु अग्रे अग्रे गत्वा यदा वयम् अन्यम् अन्यस्य करपस्य करपत्रस्य पठनं कुर्मः तदानीं विषयः आयाति पृथक्तया अस्ति वा इति दृष्ट्वा अहं पश्यामि अत्र इदानीम् उक्तवती खलु मोक्षविषये विशिष्टाद्वै विशिष्टाद्वैतमस्ति अत्र वेस्तः किमस्ति चेत् आर्तप्रपणः तृप्तप्रपणः आर्तप्रपणः वदति अहम् एत लौकिकविषये किमपि न इच्छामि मोक्षं ददातु इति आर्तप्रपणः तृप्तप्रपणः यत्र शरीरं गच्छति तत् समये अहम् आगमिष्यामि आगम किमपि चिन्ता नास्ति अहं तत् एव आगन्तुं शक्नोमि इति अस्ति एतत्तु तृप्तप्रपणः अस्तु एतदेव मया वक्तुम् इच्छामि तत् परन्तु भग्नं न का कर्तुं न इच्छामि अतः एव पूर्णतया सम्यक् सम्यक् वैष्णवसम्प्रदाये अपि एतादृश बहु विषयः अस्ति समीचीनम् तत् सत्यम् इत्युक्ते किं महोदय सत्यम् ऐन्द्रजालिकस्य दृश्यम् अस्माकं कृते एकं सत्यं ज्ञापयितुम् एकं स्पष्टम् उदाहरणम् अस्ति तत् सत्यम् अस्ति यत् यद्यपि इदं पाञ्चभौतिकजहत् केवलम् एका कल्पना अथवा सगुणब्रह्मणः विचारतरङ्गः अस्ति तथापि महावास्तविकं दृश्यते यथा अस्माभिः ऐन्द्रजालिकस्य कल्पनिकं दृश्यं सत्यं इति मन्यते तथा ब्रह्मणः कल्पना अपि वास्तविकी इति वयं मनुमः ये ऐन्द्रजालिकस्य मनसः प्रभावात् बहिः सन्ति ते तस्य दृश्यं न पश्यन्ति ते तस्य पृष्ठतः सत्यं पश्यन्ति अर्थात् केवलम् ऐन्द्रजालिकः निमीलिताभ्यः नेत्राभ्यां तदेव ते साधनाभ्यासस्य साहाय्येन भूमामनसः व्याप्तेः परं गच्छन्ति ते एतत् अपण्ड अस्तु तदैव ये, <laughs> ये साधनाभ्यासस्य साहाय्येन भूमामणसर व्याप्तेः परं गच्छन्ति ते एतत् स्थूलं ब्रह्माण्डं यथार्थरूपेण पश्यन्ति यथा ऐन्द्रजालिकस्य दृश्ये वास्तविक <laughs> ते विश्वस्य वास्तविका वास्तविकतां साक्षात् कर्तुं समर्थाः भवन्ति यथा स्थूलविश्वः स्थूलविश्वः भूमा मनसि केवलं कल्पना अथवा अथवा विचारतरङ्गः भवति तत् सत्यं वा परमसत्यं वा न भवितुम् अर्हति तदा च ये भूमामनसः परं गच्छन्ति ते एव सत्यं साक्षात्कर्तुं शक्नुवन्ति ऐन्द्रजालिकस्य दृश्ये सत्यत्वम् इव साधारणद्वारा साधनद्वारा मोक्षः अथवा साक्षात्कारः इत्युक्तौ परमसत्यस्य अथवा निरपेक्षसत्यस्य ज्ञानम् ये एतत् ब्रह्म ज्ञातवन्तः ते सत्यद्रष्टारः ऋषयः इति उच्यन्ते अत्र ब्रह्मसत्यं जगन् विद्या इति वयं जानीमः गतवर्गे अपि इदानीम् अत्र ऐन्द्रजालितस्य दृश्यम् अस्माकं कृते एकं सत्यं ज्ञापयितुम् एकं स्पष्टम् उदाहरणमस्ति अत्र ऐन्द्रजालितविषये अत्र इदानीं अस्माकं लौकिकविषये तु ऐन्द्रजालिकविषये एव दृश्यमेव प्रधानतया गच्छन्ति तर्त तत् सत्यम् अस्ति यत् यद्यपि इदं पाञ्चबौधिक बौद्धकजगत् केवलम् एका कल्पना अथवा ससहुणभ्रमणः विचारतरङ्गः अस्ति सहनभ्रमणं सहुणभ्रमणः एव प्रधानतया अस्ति निर्गुणभ्रमणतः अत्र ओङ्कारानन्दस्वामिहल् किं वदति चेत् झटिति अत्र निर्गुणभ्रमं भ्रमणः अत्र गन्तुं न शक्यते एव सगुणभ्रमणः इति टेन्त् प्लस् टु कालेज् अनन्तरम् एफ् एल् पि हेच् डि तदेव गच्छन्तु तदेव गच्छन्ति तादृशमेव अत्र भक्तिमार्गः अपि सगुणमार्गः इति प्रथमम् अस्ति अनन्तरम् अत्र पि हेच् डि इति अस्ति तत् एव निर्गुणभ्रमं गन्तुं शक्नुमः झटिति अत्र निर्गुणभ्रमं गन्तुं न शक्नुमः इति अत्र विचारतरङ्गविषये अपि एतत् सः उक्तवान् इदानीम् अत्र केवलम् एका कल्पना अथवा सगुणभ्रमणः एव अत्र पाजभौतिकात् आत्र, अस्ति खलु पादभौतिकात् इदानीं महावास्तविकं दृश्यते अत्र तदापि यथा अस्माभिः ऐन्तर्जालिकस्य काल्पनिकं साल, दृश्यं सत्यम् इति मन्यते mm. एव एतद्विषये अपि रणुमुक्तिः इति पुस्तकमस्ति अत्र जनक जनकमहाराजस्य समीपे विचारं गतवन्तः अत्र ऐन्द्रजालिकम् इति ऐन्द्रजालिकमेव कल्पना एव अस्ति अनन्तरम् अत्र अष्टावक्रः उक्तवान् एतत् समीचीनतया नास्ति इदानीं वयम् एतत् सर्वाणि वस्तूनि दृष्टवन्तः अनन्तरं तत् समीपे वयं जीवनमपि कृतवन्तः किमर्थम् एतत् माया इति उक्तवन्तः सर्वे अत्र भोजनसमये गतवन्तः भोजनम् मास्तु भोजनमास्तु एतत्तु सर्वाणि वस्तूनि ये स्थापितवन्तः भोजनविषये तत् तर सर्वं माया इति सः उक्तवान् अनन्तरम् किञ्चित् एतत् एतत् विषये एव अत्र ऐन्द्रजालिकस्य विषये एव अत्र ऋणमुक्तिः इति पुस्तके अपि एतत् अत्र दत्तम् इदानीम् अत्र ऐन्द्रजालिकस्य काल्पनिकं दृश्यं सत्यम् इति मन्यते एतत् सर्वाणि पदा वयं यत् दृष्टवन्तः एतत् सत्यम् इति मन्यते चेत् तथा ब्रह्मणः कल्पना अपि वास्तविकी इयं वयं मनुमः ब्रह्मणः अपि कल्पना एव इति ये ऐन्द्रजालिकस्य मनसः प्रभावात् बहिः सन्ति ते तस्य दृश्यं न पश्यन्ति अतः एव मनसः सद् सर्वदा बहिः एव गच्छति एतत् किञ्चित् अत्र अन्तः आत, अन्तः आत, गन्तव्यं तत् समये एव भ्रमणस्य विषये दृश्य दृश्यं शक्नोति इदानीं भवती अपि उक्तवती यः वात्सल्यस्वरूपेण मानसिक कारणेन यः अत्र भक्तिः स्थापितवन्तः ताप, तेषां कृते भगवान् झटिति आगन्तुं शक्यते इति अतः एव अत्र ते, ते तस्य पृष्ठतः सत्यं पश्यन्ति अर्थात् केवलम् ऐन्द्रजालिकः निमीलिताभ्यः नेत्राभ्याम् एतत् सत्यमस्ति उद्घाटनं भवति भवितव्यमेव अनन्तरमेव एतत् ऐन्द्रजालिकः इति वयं ज्ञातुं शक्नुमः तदेव ये साधन अभ्यासस्य साहाय्येन भूमा मनसः व्याप्तेः परं गच्छन्ति ते एतत् स्थूलं ब्रह्माण्डं यथार्थरूपेण पश्यन्ति यथा ऐन्द्रजालिकस्य दृश्य पास्थितिकत्वम् अत्र साधना अवस्था अस्ति अत्र अष्ट साधना यमनियम आसन प्राणायाम प्रत्याहार ध्यान अनन्तरं सा एतत् सर्वाणि समाधिपर्यन्तम् अष्ट साधन अभ्यासः अस्ति एतत् साहाय्येन एव अत्र वयं मनसि परब्रह्मं साक्षात् कर्तुं शक्नुमः समर्थाः इति यथा स्थूलविश्वः भूमा मनसि केवलं कल्पना अथवा विचारतरङ्गः भवति तत् सत्यं वा परमसत्यं वा न भवितुम् अर्हति च ये भूमा मनसः परं गच्छन्ति ते एव सत्यं साक्षात् कर्तुं शक्नुवन्ति ऐन्द्रजालिकस्य दृश्ये सत्यत्वम् एव अत्र मनसि यत् दृढतया साक्षात् कार्यविषयेण गच्छन्ति तत् समये एव एतत् अस्माकम् अस्तामलिक अलेक, अस्तामलिकम् इति अस्माकम् हस्ते आगन्तुं शक्नुवन्ति साक्षात्कर्तुमपि शक्नुमः शक्नुमः साधनद्वारा एव मोक्षः अथवा साक्षात्कारः इत्युक्तौ परमसत्यस्य अथवा निरपेक्षसत्यस्य ज्ञानं साधनद्वारा एव एतत् सर्वं भवितुम् अर्हन्ति वयं सर्वे उण्डिये उडये वयं सर्वे किमस्ति वस्त्रमस्ति वा अत्र गृहमस्ति वा एव वयम् अत्र अस्माकं कृते मनसि गच्छन्ति अतः तत्र परमसत्यस्य विषये अत्र अपेक्षा नास्ति एव ये च ब्रह्म ज्ञातवन्तः सत्यदृष्टारः ऋषयः इति उच्यन्ते तेषां कृते अत्र किमपि लौकिकविषयं नास्ति लौकिकविषयं शास्लेरिकमृगमा लौकिकविषये किमपि अत्र अस्ति चेत् अत्र ऋषयः इति वयं तस्य दृष्टारः न भवति एव तेषां कृते किञ्चित् बहवः ज्ञानं सन्ति ज्ञानानि सन्ति अतः एव सुलभतया ते सर्वे <clears throat> सत्यद्रष्टारः इति वक्तुं शक्नुमः इति मम चिन्तनं महोदय समीचीनं भगिनी समीचीनं धन्यवादः तदेव अस्ति इत्युक्ते ऐन्द्रजालिकस्य यद्दृश्यम् अस्ति परमपुरुषस्य लगुणब्रमणी या कल्पना अस्ति तयोः तुलना जायमाना अस्ति तयोः साम्यमपि अस्ति भेदः अपि अस्ति इत्युक्ते ऐन्द्रजालिकस्य कल्पनायाः कालः भवति सर्वदा ऐन्द्रजालिकस्य दृश्यं वर्तते इति नास्ति खलु तत्र किञ्चित् कालपर्यन्तमेव भवति तदनन्तरम् ऐन्द्रजालिकस्य कल्पनायाः भग्ना भवति कल्पना भग्ना भवति परन्तु परमपुरुषस्य सगुणब्रह्मणि यद् जगत् अस्ति तत्तु सर्वदा अस्ति एव इत्युक्ते तत्र जगतः नाशः इति नास्ति कुत्रचित् तत्र जगति कुत्रचित् तत्र किं कश्चन भागस्य कश्चन कश्चन अंशस्य नाशः भवति पुनरुत्पत्तिः भवति तत्तु अस्ति परन्तु जगत्तु सर्वदा वर्तते तर्हि तत्रापि कल्पना अस्ति अत्रापि कल्पना अस्ति इति तु साम्यं वर्तते तत्र ऐन्द्रजालिकस्य दृश्यं वर्तते परमपुरुषस्य कल्पना वर्तते कल्पनायां वयं सर्वे स्मः ऐन्द्रजालिकस्य कल्पनां वयं पश्यामः तर्हि अत्र ऐन्द्रजालिकस्य विषये तु तस्य अहं तत्वं Uh, तत्र अहं तत्त्व तत्त्वरा चित्तं तत्र चित्तं कल्पनां धरति चित्तं कल्पनायाः ये विषयाः सन्ति तेषां ग्रहणं करोति चित्तं तस्य तेषाम् आकारं धरति अनन्तरम् अहं तत्त्वं तच्चित्रं पश्यति जनाः अपि तच्चित्रं पश्यन्ति परन्तु परमपुरुषस्य कल्पनायां वयं सर्वे स्मः वयं परमपुरुषस्य कल्पनायं वयं सर्वे स्मः अतः परमपुरुषस्य कल्पनायाः भागः वयं स्मः तत्र वयमपि कल्पनायाः विषयः वयमपि कल्पनायाः विषयः एव सगुणब्रह्मणि तु तत्र रेडियस् किमपि नास्ति इत्युक्ते एतादृश एतादृशदेशपर्यन्तम् एव ऐन्द्रजालिकस्य विषये किञ्चित् देशपर्यन्तमेव ते तस्य जनाः सन्ति परन्तु सगुणभ्रमणी तु वयं सर्वे स्मः सगुणभ्रमणी वयं सर्वे स्मः इति तत्र अपि च तत्र इति अनयोः भेदः अपि अस्ति ऐन्द्रजालकस्य तु तत्र किञ्चित् कालपर्यन्तं सगुणभ्रमणी तु सर्वदा वर्तते यदा कल्पनायाः बहिः वयम् आगच्छामः ऐन्द्रजालकस्य दृश्यात् बहिः वयम् आवग आगच्छामः तदानीं वयम् अवगच्छामः आमाम् एतत्तु वास् वास्तविकं नास्ति कल्पना एव आसीत् तत्र ध्रियते तेन किमपि क्रियते येन दृश्यं वयं पश्यामः इति वयम् अवगच्छामः यावत्पर्यन्तं कल्पनायां वयं स्मः तदा तावत्पर्यन्तं न अवगच्छामः सर्वं सत्यम् इति भासते एवं यावत्पर्यन्तं वयं जगति वसामः तावत्पर्यन्तं सर्वं सत्यम् इति भासते यदा यदा साधनाद्वारा वयं मानसातीतः वयं मानसातीताः भवामः तदानीं वास्तविकं वयम् अवगन्तुं शक्नुमः तावत्पर्यन्तं वास्तविकं न अवगच्छामः सर्वं सत्यम् इति भासते अतः साधनाद्वारा एव मोक्षः लभ्यते तर्हि ये ब्रह्म जानाति सः एव तत्त्वज्ञः यः ब्रह्म जानाति ब्रह्मज्ञः सः सत्यद्रष्टा सः सत्यद्रष्टा तत्तु Uh, साधनाद्वारा भवति तावत्पर्यन्तं जगत्मिथ्या जगन्मिथ्या इति वक्तुं न शक्यते जगत्तु वर्तते जगतः साक् सापेक्षिकसत्यत्वं साप वर्तते इति अत्र विषयः अस्ति अतः किञ्चित् अग्रे गच्छामः तत्र किं सरिताभगिनी पठति वा ब्रह्म एव सत्यं परम सत्यं जगन्मिथ्या इति केचन वदन् केचन वदन्ति कियत् दूरम् एतद् वचनं सत्यम् इति पश्यामः सगुणब्रह्मणः कल्पनायाम् इदं जगत निर्मितम् यदि इदं जगत केवलं कल्पनायाम् एव विद्यते तर्हि तत् वास्तविकं न भवितुम् अर्हति यदि कल्पना वास्तविकी आसीत् तर्हि सा स यथार न तो कलना सगुण ब्रह्मण कलना जगत निर्मित इतम पर न भगुण ब्रह्मण अहम तत्व विश्व कल्पय काल जगत ब्रह्म विचार प्रक्षेपूपेण स्रष्टुम्रह्मण चिंत जगत रूप काल्पनिकं रूप वास्तव न सूपमेंथ चिंत जगत कल रूप गृति तद वास्तविकृण्णक चिंत यकम अतः वास्तव न चित्तं जगद्रूपेण प्रकटित अस्थि ये प्रकटित तूप कल तथा चित्त जगद्रूपेण प्रकटित अस्त एक वास्तव अथवा सत्यम अस्थ विश्व अस्त अतः असत्यम वक्त न, न शकते परंतु सामन सम यहां ब्रह्मण कल्पनायाम् अस्ति ततः तद्रूपं सत्यं न भवितुम् अर्हति अतः जगत् न सत्यं न मिथ्या इति मन्तव्यम् तयोः मध्ये किमपि अस्ति जगत् सत्यं सापेक्षिकम् अत्र जगत् एतत् जगत् सगुणब्रह्मणस्य कल्पनायां वर्तते इति लिखितमस्ति तीन जगत कलना तरी सत्य भवती कितु यदि कलना वर्त है गृति अतः असत्यम वक्त शक्य अतः तय मध्ये जगत सापेक्षि वक्त शक् गुणब्रह्मणस्य अहं तत्त्वम् एकं कल्पनायां रूप् कल्पनायां कल्पना करोति तत् कल्पना चित्तस्य चित्तः रूपं गृह्णाति अतः जगत् प्रकटि प्रकटितं भवति इदानीं यदा तत् कल्पना सगुणब्रह्मणस्य सगुणब्रह्मणः मनसि वर्तते तदा वयं जगत् पश्यामः तत् जगत् वयम् असत्यम् इति वक्तुं न शक्नुमः इदानीं यदा वयं साधना क्रियते तदा मनस् भूमा मनसि इत्युक्ते सम्पूर्ण जगत् सम्पूर्णमनसि अतिक्रम्य परं गच्छामः तदा एव जगतस्य वास्तविकरूपं वयं ज्ञातव्यम् अस्ति तदानीम् एव जगतस्य सापेक्षिक एव सत्य इति वयं वक्तुं शक्नुमः तदानीं तु जगत् सत्य एव भासते भगिनि समीचीनं भगिनि सम्यक् सम्यक् इत्युक्ते अत्र यद् उक्तं सः विषयः बहु बहु मुख्यविषयः अस्ति ब्रह्म एव सत्यं जगन्मिथ्या इति केचन वदन्ति खलु केचन वदन्ति इत्युक्ते अस्मिन् जगति नित्यवस्तु किम् इति चेत् ब्रह्म एव नित्यं नित्यम् इत्युक्ते तस्य परिवर्तनं कदापि न भवति तदेव सत्यमस्ति नित्यमस्ति सत्यमस्ति ब्रह्म एव सत्यमस्ति सर्वदा वर्तते परन्तु तदर्थं तत्र ब्रह्मसत्यम् अस्ति इति कृत्वा जगन्मिथ्या इति तु वक्तुं न शक्यते तत्र निर्गुणपुरुषः यः अस्ति निर्गुणपुरुषस्य समुद्रः यः समुद्रः वर्तते तत्तु सर्वदा वर्तते तस्य परिवर्तनं कदापि न भवति तत्तु अन्यम् आश्रित्य न वर्तते तत्तु तत्तु परमसत्यं वर्तते इदानीं कल्पनायाः कल्पनायाः विषये तस्य स्थितिः का कल्पनायाः स्थितिः का इत्युक्ते अत्र परमपुरुषस्य मनसि भूमा मनसि तस्य चित्ते कल्पना जायमाना अस्ति अतः तत्र कल्पना इति वयं वदामः तर्हि यदा वयं कल्पना इति वयं वदामः चेत् यदा तत्र कोऽपि निद्रां करोति रात्रौ तदानीं तस्य स्वप्नः भवति इदानीं कश्चनपुरुषः अस्ति कृष्णः यदा तत्र रात्रौ सः स्वपिति तदानीं तस्य तत्र निद्रायां स्वप्नः आयाति तत्र स्वप्नः आयाति स्वप्नः तु आगतः केनापि वक्तुं न शक्यते यत् स्वप्नः न आगतः इति स्वप्नः तु आगतः तत् तादृशस्वप्नं कृष्णेन दृष्टमस्ति तादृशस्वप्नः कृष्णेन दृष्टः अस्ति तर्हि तत्र यावत्पर्यन्तं तेन स्वप्नः दृष्टः तावत्पर्यन्तं स्वप्नः तु आसीत् स्वप्नः नासीत् तु न वक्तुं शक्यते स्वप्नः मिथ्या इति वक्तुं न शक्यते स्वप्नः तु तेन दृष्टं खलु इत्युक्ते अस्माकं सर्वेषामपि अनुभवः अस्ति यदा रात्रौ स्वप्नः आयाति तदानीं मया स्वप्नः दृष्टः इति एव वयं वदामः स्वप्न स्वप्ने विषयाः मिथ्या मिथ्याभूताः वा न वा इति भिन्नवार्ता परन्तु मया दृष्टः अनन्तरं यदा वयम् उद्घाटिताः भवामः तदानीं यदा उट्टिताः भवामः तदानीं वयं तदानीं वक्तुं शक्नुमः नो नु न तत्र तु सः स्वप्नः आसीत् वास्तविकं नासीत् इति तदानीं वक्तुं शक्नुमः यावत्पर्यन्तं स्वप्ने वयं स्मः तदानीं तस्य वास्तविकता वर्तते यदा स्वप्नः भग्नः भवति तदानीं भिन्नवार्ता तदर्थं वयं वदामः सापेक्षिकसत्यत्वम् इति वदामः स्वप्नस्य विषये वयं वदामः सापेक्षिकसत्यत्वम् इत्युक्ते स्वप्नः तु आसीत् स्वप्ने ये विषयाः विषयाः सन्ति ते विषयाः वास्तविकाः न सन्ति तदर्थं तत्र सापेक्षिकसत्यत्वं इति वदामः न मिथ्या मिथ्या इत्युक्ते नास्ति इत्यर्थः मिथ्या इत्युक्ते तस्य अस्तित्वं कदापि नास्ति इति अर्थः परन्तु अत्र सापेक्षिकम् इत्युक्ते यावत्पर्यन्तं वयं कल्पनायां स्मः तावत्पर्यन्तं तस्य अस्तित्वं वर्तते यदा कल्पनायाः भग्नः भवति तदानीं तस्य अस्तित्वं नास्ति इत्यर्थः इत्युक्ते तत्र ब्रह्मणि या कल्पना जायते तादृशकल्पनायाः भेदः अस्ति कृष्ण कृष्णेन यः स्वप्नः दृष्टः तस्य अपि च सगुणब्रह्मणि या कल्पना अस्ति तयोः भेदः अस्ति इत्युक्ते स वयं सर्वे अपि स्वप्नं पश्यामः तर्हि इदानीं तत्र परमपुरुषस्य कल्पनायां किम् इति चेत् वयं मम कल्पनायां तु किमपि तत्र कश्चन विषयः भवति कल्पनायाः विषयः तदानीं तत्र कल्पनायाः समाप्तिः भवति किञ्चित् काल कालानन्तरं काला कल्पनायाः समाप्तिः भवति परन्तु परमपुरुषस्य विषये तथा नास्ति परमपुरुषस्य कल्पनायां तु वयं सर्वे स्मः तस्य कदापि समाप्तिः न भवति कल्पनायाः समाप्तिः न भवति तदेव तत्र तत्र परमपुरुषस्य कल्पना कलकल्पनायाः आधारः अस्ति तस्य मनः तस्य मनः तस्य सापेक्षिकसत्यत्वं वय वर्तते वयं सर्वे अपि तस्मिन् स्मः अस्माकमपि सापेक्षिकसत्यत्वं वर्तते अतः वयं न वक्तुं शक्नुमः यत् वयं सर्वे अपि न स्मः इति वक्तुं न शक्नुमः वयं सर्वे स्मः परमपुरुषस्य कल्पनायां वयं सर्वे स्मः अस्माकं सापेक्षिकसत्यत्वं यावत्पर्यन्तं लोके वयं वसामः तावत्पर्यन्तं तत्र सर्वं वास्तविकम् इति भासते सर्वं वास्तविकम् इति भासते यदा वयं यदा इदं जगत् जगन्मिथ्या इति वयं वदामः तदानीं किं कुर्मः इति चेत् तदानीं जगतः त्यागं कुर्मः इदा इदानीं जगन्मिथ्या इति उक्त्वा संन्याससन्यासधारी वयं भवामः सन्न्यासधारी भवामः चेत् तत्र लोकं त्यजामः लोकं त्यक्त्वा अन्यत्र गच्छामः तदानीं लोके स्थित्वा यद् कार्यं वयं कर्तुं शक्नुमः अन्येषां कृते या सेवा या सेवा अथवा सेवाभावः अथवा अन्य अन्यस्य सहायः सहायं यत्किमपि वयं कर्तुं शक्नुमः तद् न कर्तुं शक्नुमः यदा वयं संन्यासधारीं धृत्वा वयं संन्यासं धृत्वा अग्रे गच्छामः इदानीं तदानीमपि अस्माकं मनः लोके भवितुम् अर्हति खलु इत्युक्ते जगन्मिथ्या इति उक्त्वा वयम् अग्रे कुत्रचित् पर्वते गत्वा वसामः तदानीमपि अपि आप अस्माकं मनः लोके भवितुमर्हति लोकः तु मिथ्या आसीत् किमर्थम् अस्माकं मनः लोके एव अस्ति तदानीमपि इत्युक्ते तत्र लोकः तु अस्ति तस्य वास्तविकसापेक्षिकसत्यत्वं वर्तते वयं लोके वसामः लोके स्थित्वा वयम् अन्येषां साहाय्यं कुर्मः साधनां कुर्मः एतादृशं वयं कुर्मः चेत् तदानीम् अन्यस्य सहायः साहाय्यमपि भवति अपि च अस्माकं मनः अपि वर्धते अस्माकं मनः अपि वर्तते इति अत्र अतः परमपुरुषस्य कल्पना बहु आ, बहु महत्त्वपूर्णः विषयः अस्ति तस्य अवगमनम् अत्यावश्यकमस्ति यतोहि तस्मिन् तस्यां कल्पनायां वयं सर्वे स्मः तत्र ये वृक्षाः सन्ति ये पशवः सन्ति तेषां सर्वेषां दर्शनम् अस्ति खलु तान् ता, तान वयं पश्यामः अस्माकं ये जनाः सन्ति तान् सर्वान् वयं पश्यामः अतः तान् इदानीं मम पुरतः कोऽपि अस्ति तद् सः पुरुषः मिथ्यारूपेण अस्ति वा वास्तविकरूपेण अस्ति खलु अहं पश्यामि खलु अतः मिथ्या इति कथं वक्तुं शक्नुमः यदा वयं साधनां कृत्वा वयम् अग्रगतीं वयं प्राप्नुमः तदानीं वयम् अवगन्तुं शक्नुमः ओ अस्तु अत्र सर्वं ब्रह्ममयम् इति तादृश तस्याम् अवस्थायाम् अवगन्तुं शक्नुमः परन्तु यदा वयं वसामः योगनिष्ठजीवने तु वयं यदा वयं वयं तदानीं जगन्मिथ्या इति न अङ्गीकुर्मः तर्हि अग्रे गच्छामः सर्वा भगिनी अग्रे पठति वा अस्ति वा भगिनि आं भगिनि क्षम्यताम् सृष्टिब्रह्मण कश्चन विचारतरङ्ग अस्ति यस्मिन् दिने तस्य निवृत्तिः भविष्यति तस्मिन् दिने विश्वस्य समाप्तिः भविष्यति अनेन प्रश्नः उदेति यत् किमर्थम् अयं विचारतरङ्गः न समाप्तः यदि भविष्यत्काले तस्य विचारतरङ्गस्य समाप्तिः भविष्यति तर्हि सः कदा भविष्यति यदा प्रकृत्या अघनिपुरुष अघनीभूतपुरुषः भवति तदा सगुन ब्रह्मन जगत तेन विचार निर्मी तेनालीराम सृष्टा जगत जगद भवति। होतीद जगद जगत अस्थ प्रकृते कारण अथवा इतनी स्पष्टत वक्तव्य चेत् प्रकृत्याः पुरुष प्रकृत्या पुरुषः गुणान्वित इति कारणेन यदि पुरुषः प्रकृतेः गुणान् वयात् मुक्तः भवति तर्हि जगत् समाप्तिः स्यात् यतः पुरुषः स्वकल्पनाम् अथवा विचारतरङ्गं न अनुवर्तयति प्रकृतेः प्रभावेण पुरुषः सगुणब्रह्मण सगुणावस्थायां स्वम् अनन्तसख्या सङ्ख्यासु जीव जीवात्मनसु सङ्गुणीकृतवान् संग, संग, संगु, एतेः कारणैः एव ब्रह्म जीवात्मना परमं बहुगुणम् अस्ति प्रकृते गुणान्वयात् स्वं मोक्तुं सगुण ब्रह्म अनन्तसङ्ख्यायानां जीवात्मनां मुक्तिः प्रभावात् सदैव सृष्टिं समापयितुं शक्यते सगुणब्रह्मणे सर्वेषाम् अनेक जीवात्मनां समग्रता वर्तते दशकोटयः जीवात्मनः प्रभावात् मुक्ताः भवन्ति चेत् अपि मुक्त्यर्थम् इतोऽपि अनन्तसङ्ख्यायाः अव अवश् अवशिष्टा अवशिष्टा हि यत् अपहृतम् शेषमपि अनन्तम् एव भवति अनन्तसङ्ख्या इति उक्तौ एका सङ्ख्या यस्याः गणना न शक्यते अथवा या, या कदापि न समाप्ता भवति अतः यदि अनन्तसङ्ख्या अनन्तसङ्ख्या कोटि शतकोटि वा अपहृता भवति तर्हि शेषसंख्या अनन्ता एव भविष्यति संख्या असङ्ख्यका अथवा अनन्ता न भवति यदि काम कामपि परमितसंख्या ऊनीकृत्य कियतीयतीमपि संख्यायाम् अपृत्य तां संख्यायां लघुतरां करोति किमर्थं चेत् तादृशसङ्ख्यायाः अन्तः दृष्टिपथि आयाति अतः प्रकृतिप्रभावात् मुक्ता जीवात्मना कियन्तम् कियन्तः अपि बृहन्तस्य स्युः तथापि सगुणब्रह्मणि प्रकृतेः प्रभावे इतोपि अनन्तसंख्यकाः जीवात्मनः भवन्ति सगुणब्रह्म तत्पश्चात् अपि अनन्तसंख्याकानां बहुत्वं भवति यावत्पर्यन्तं सगुणब्रह्मण अस्ति तावत्पर्यन्तं सृष्टिः निरन्तरा भवति यत् जीवात्मनां संख्या अनन्त तत् सृष्टि यतः यतः जीवात्मनां सङ्ख्या यतः जीवात्मनां सङ्ख्या अनन्ता तत् सृष्टि कदापि निर्वचयि निर्वर्तयि निर्वर्तयितुं निवर्तयितुं न शक्यते वस्थायां पुरुषे विचारतरङ्गाः उत्पन्नाः भवन्ति प्रकृते प्रभावात् तथा च यावत् पर्यन्तं प्रकृतिप्रभावे एकः अपि जीवात्मा वर्तते तावत् पर्यन्तं विचारतरङ्गस्य कल्पनायाः निरन्तरता भवति तस्यां कल्पनायां च सृष्टिः स्थास्यन्ति इदानीं uh, सगुणब्रह्म कथं सृष्टिः निर्मीयते तद् दत्तमस्ति वयं दृष्टवन्तः सगुणब्रह्म यथा ऐन्द्रजालिका अस्ति तस, तस्य तस्य पूर्व uh, पूर्वस्मिन् uh, परिच्छेदे तस्य uh, uh, uh, uh, भेद भेद इति दृष्टवन्तः भेद किं समानता किम् अस्ति अपि प्र भवती गतसप्ताहे भेद किमस्ति तदपि उक्तवती किन्तु यत् इदानीं दा, दत्तमस्ति सगुणभ्रमण यदि अस्ति सगुणब्रमण वयं जानीमः यदि निर्गुण ब्रह्म प्र, प्रकृति प्रभावेन प्रकृतिप्रवने गुणानि भवति तदानीं वयं वदामः इति सगुणब्रह्मणः भवति यदि सगुणब्रह्मणः अस्ति सगुणब्रह्म अस्ति तर्हि सगुणब्रह्म तस्य मनसि विचारतरङ्गम् आगच्छति विचारतरङ्गा च तस्य कल्पना भवति अनेन कल्पनायाः अनया कल्पया कल्पनया कल्पनाया तत् इति यत् वयं पश्यामः सृष्टिनिर्मि सगुणं ब्रह्म तेन सृष्टिः निर्मीयते यदा सृष्टिः निर्मीयते यत् वयं जगत् पश्यामः तत् सृष्टिः अस्ति यदि सृष्टिः निर्मीयते तस्य लयः अपि भवितुं शक्नोति कथं वयं लय न लय न पश्यामः इति अपि यावत्पर्यन्तरं कल्पना अस्ति तावत्पर्यन्तं सृष्टिः भवति इदानीं कदा तस्य कल्पना भङ्ग भवति यदा भङ्ग भवति तदा एव कल्पनायाः लयः भवति सृष्टिः सृष्टिः अपि लयः भवति अस्ति अपि यदा कल्पना भवति कल्पना यत् तस्मात् ब्रह्मस्य ये वयं पृथक् पृथक् भव जीवात्मा जीवात्मनः पश्यामः पशव अपि वनस्पतिः वृक्षाः बहवः पशव पक्षिणः मनुष्याः एव वयं पश्यामः इति सगुणभ्रमस्य किमपि सङ्ख्या अस्ति कियत्पर्यन्तं तस्य सङ्ख्या अस्ति इति न वयं वक्तुं शक्नुमः कारणी अनन्त अस्ति यदि अनन्त अस्ति अनन्त् अनन्तात् किमपि यदि वयं बहिर् जीवा जीवात्मा कापि सङ्ख्या वयं कोटिसङ्ख्या अपि यदि वयं गणनां कुर्मः तदपि अनन्त यदि अनन्त अस्ति तस्मात् अपि यत् अवशिष्यते तत् अपि अनन्त भवति यथा एकं श्लोकम् अस्ति पूर्णमध पूर्णात् पूर्णस्य पूर्णमादाय पूर्णमेवाय शिष्यते पूर्णस्य पूर्णमादाय पूर्ण मेवाय शिष्यति यत् पू सगुणब्रह्मनिति पूर्णम् अस्ति तस्मात् किमपि यदि निकासमा निकास निकासमयः तत् पू यत् अवशिष्यते तत् अपि एव अवशिष्यते तो इति अस्ति अनन्त ब्रह्मस्य अनन्त इति अनन्त् भवत् कथम् अनन्त् अस्ति सगुणभ्रम इति दत्तमस्ति इदानीम् अनन्तात् हा हा समीचीनं भगिनी समीचीनम् विषयः अस्ति तत्र पुरुषः प्रकृतिः द्वयमपि नित्यमेव वर्तते प्रकृतेः प्रकृतेः कार्यं तु सर्वदा भवति एव सा सर्वदा तस्य कार्यं करोति तर्हि तस्याः प्रभावः कुत्रचित् पुरुषस्य उपरि भवति तदानीं सृष्टिः जायते तर्हि तादृश सृष्टिः सर्वदा भवति इति एव इत्युक्ते तत्र सृष्टौ केचन इत्युक्ते केषाञ्चन के, अंशानां यदा नाशः भवति तदानीं तत्र नूतन नूतन उत्पद्यन्ते नूतन उत्पद्यन्ते इत्युक्ते तत्र नूतनछात्राः सर्वदा आगच्छन्ति एव तत्र कक्षायां यथा <Sess> <Sess> कक्षायाम् इत्युक्ते एकः एका कक्षा वर्तते कक्षायाः यदा समाप्तिः भवति तत्र छात्राः तस्मात् तस्मात् गच्छन्ति खलु कक्षातः बहिः गच्छन्ति तदानीं नूतनछात्राः आगच्छन्ति खलु एवम् एव सृष्टौ यदा कस्यचित् अंशस्य नाशः भवति तदानीं नूतन उत्पादनं भवति इति कृत्वा सृष्टेः नाशः कदापि न भवति यतोहि प्रकृतेः कार्यं तु सर्वदा भवति सा सर्वदा पुरुषं गुणान्वितं करोति एव इति कृत्वा तत्र प्रक्रिया सर्वदा प्रचलति एव तस्य कदापि समाप्तिः न भवति ब्रह्म नित्यमस्ति पुरुषः प्रकृतिः इति द्वयं मिलित्वा एव ब्रह्म ब्रह्म शिवशक्त्यात्मकं ब्रह्म ब्रह्म तु नित्यं वर्तते तस्मिन् ब्रह्मणि तत्र तत्र असङ्ख्यकाः जीवात्मा जीवात्मा जीवात्मनः सन्ति तर्हि तत्र केषाञ्चन जीवात्मनः मुक्तिः भवति चेत् तत्र समग्रस्य मुक्तिः भवति वा इति चेत् न इत्युक्ते असङ्ख्यकाः सन्ति खलु अनन्ताः सन्ति अनन्ताः सन्ति इति कृत्वा सर्वेषां मुक्तिः कदापि न भवति सर्वेषां मुक्तिः कदापि न भवति तत्र नूतन नूतनछात्राणाम् उत्पादनं सर्वदा भवति एव ये ये जीवात्मा जीवात्मनः सन्ति ये इदानीं व्यक्तीकृतानि न सन्ति तेषाम् उत्पादनं भवति तेषां प्रकटीकरणं भवति इति कृत्वा तत्र अविनाशः इति विषयः कदापि न भवति इति सर्वदा ज्ञातव्यम् यतोहि ब्रह्मनित्यम् अपि च तस्या तस्मिन् ब्रह्मणे कल्पना अपि सर्वदा प्रवर्तमाना अस्ति यतोहि प्रकृतेः प्रभावः सर्वदा भवति अतः कल्पनायाः अन्तः इति कदापि न भवति यतोहि तत्र भूमा मनसि तरङ्गविचारतरङ्गः सर्वदा प्रवर्तन्ते एव अतः केचन वदन्ति खलु अत्र टु द वर्ल्ड् विल् कम् टु एन् एण्ड् इति तथा किमपि नास्ति जगत् सर्वदा प्रवर्तते एव इति स्मर्तव्यं तर्हि अत्र कोपि प्रश्नः वा भगिनी दृष्टिपथि कि इति किमस्ति किमर्थं चेत् तादृशसङ्ख्या किं कुत्र अन्तिमवाक्यं यत् अस्ति किमर्थं चेत् तादृशसङ्ख्याया अन्तः दृष्टिपथि आयाति मीन्स् विदिन् द सैट् किमर्थं चेत् तादृशसङ्ख्यायाः अन्तः दृष्टिपति आयाति द सैट् अस्तु उत्तमं पत् समीशीनं समीश्रं तर्हि अत्र स्थगनं कुर्मः धन्यवादः नमस्कारः